शः सर्गः ततः शरेणाभिहतो रामेणरणकर्कषः पपातसः सावली निकृत्त इव पादपः स भूमोऽन्यस्तसर्वाङ्गस्तप्त काञ्चनभूषणः अपतद्देव राजस्य मुक्तरश्मिरिवध्वजः अस्मिन्निपतिते भूमौ हर्यृक्षाणाम् गणेश्वरे नष्टचन्द्रमि भव्योमनव्यराजत मेदिनी भूमौ निपतितस्यापि तस्य देहम् महात्मनः न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः शक्रदत्तापरामाला काञ्चनीरत्नभूषिता न धारहरिमुख्यस्य प्राणांस्तेजश्रियम् च सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् तस्य माला च देहश्च यजातिमिव पुण्यान्ते देवलोकातिहच्युतम् आदित्यमिव कालेन युगान् ते भुवि पातितम् महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम् महेन्द्रपुत्रम् पतितम् बालिनम् तम् तथापतितम् वीरम् गतार्चिषमिवानलम् बहुमान्य च तम् वीरम् वीक्षमाणम् शनैरिव उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ तम् वाली लक्ष्मणम् च महाबलम् अब्रवीत्परुषम् वाक्यम् प्रसृतम् धर्मसंहितम् स भोमा नष्टचेतनः अर्थसंहितया वाचा गर्वितम् रणगर्वितम् त्वम् न राधिपतेः पुत्रः प्रथितः कृत्वा कोत्र गुणः यदहम् युद्धसंरब्धस्त्वत्कृते निधनम् गतः कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः रामः करुणवेदी च नुक्रोशो महोत्साहः समयज्ञो दृढव्रतः इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि दमः शमः क्षमा धर्मो धृतिः सत्यम् पराक्रमः पार्थिवानाम् गुणा राजम् दण्डश्चाप्यपकारिषु ताम् गुणान् सम्प्रधार्याहमग्र्यम् चाभिजनन्तव त्वारया प्रतिषिद्धः सुग्रीवेण समागतः न मामन्येन प्रमत्तं प्रमत्तम् इतिमे बुद्धिरुत्पन्ना बभूवा दर्शने तव स त्वाम् विनिहतात्मानम् जाने पापसमाचारं तृणैः कूपमिवावृतम् सताम् वेषधरम् पापम् प्रच्छन्नमिव पावकम् नाहम् त्वामभिजानामि विषये वा पुरे वा ते यदा पापम् करोम्यहम् न च त्वामवजानेऽहम् कस्मात्तम् हंस्य किल्बिषम् फलमूलाशनम् नित्यम् मामिहा प्रतियुध्यम् तमन्येन च समागतम् त्वम् प्रियदर्शनः लिङ्गमप्यस्तिते राजम् दृश्यते धर्मसंहितम् कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः धर्मलिङ्गप्रतिच्छन्नः क्रूरम् कर्म समाचरेत् त्वम् राघवकुले जातो धर्मवानिति विश्रुतः अभव्योऽभव्यरूपेण किमर्थम् परिधावसे सामदानम् क्षमा धृतिपराक्रमौ पार्थिवानाम् गुणाराजम् दण्डश्चाप्यपकारिषु वयम् वनचरार राममृगामूलफलाशिनः एषा प्रकृतिरस्माकम् पुरुषस्त्वम् नरेश्वर भूमिर्हिरण्यम् रूपम् विग्रहे कारणानि च तत्र कस्तेव नेलोभो मदीयेषु फलेषु वा नयश्च विनयश्चो भो निग्रहानुग्रहावपि राजवृत्तिरसङ्कीर्णा नृपाः कामवृत्तयः त्वम् तु कामप्रधानश्च कोपनश्चानवस्थितः राजवृत्तेषु सङ्कीर्णः शरासनपरायणः न तेऽस्त्यपचितिर्धर्मेणार्थे बुद्धिरवस्थिता इन्द्रियैः कामवृत्तः सन्कृष्यसे हत्वा बाणेन काकुत्स्थमामिहानपराधिनम् किम् वक्ष्यसि स मध्ये कर्म कृत्वा राजः ब्रह्म गोघ्रश्चोरः प्राणिवधेरतः नास्तिकः परिवेत्ता च सर्वे निरयगामिनः सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पकः लोकम् पापात्मनामेते गच्छन्तेनात्र नात्रसंशयः अधार्यम् चर्म मे सद्भिमाण्यस्थि च वर्जितम् अभक्ष्याणि च मांसानि पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव शल्यकश्वाविधो गोधाशशः कूर्मश्च पञ्चमः चर्म चास्थि च चा मे राम नः स्पृशन्ति मनीषिणः अभक्ष्याणि च मांसानि सोऽहम् पञ्च नखो हतः तारयावाक्यमुक्तोऽहम् सत्यम् सर्वज्ञयाहितम् मोहेन कालस्य वशमागतः त्वया नाथेन काकुत्स्थनस नाथा वसुन्धरा प्रमदाशीलसम्पूर्णापत्येव च विधर्मणा षठो मेकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः पापो महात्मना छिन्नचारित्र्यकक्ष्येण सताम् धर्मातिवर्तिना त्यक्तधर्माङ्कुशेनाहम् निहतो रामहस्तिना अशुभम् चाप्ययुक्तम् च सताम् चैव विगर्हितम् वक्षसे चेदृशम् कृत्वा सह समागतः उदासीनेषु योऽस्मात् विक्रमोऽयम् प्रकाशितः अपकारिशुते ते राम नैवम् पश्यामि विक्रमम् दृश्यमानस्तु युध्येथा मया युधि नृपात्मजा अद्य निहतो मया त्वया दृश्येन तुरणे निहतोऽहम् दुरासदः प्रसोप्तः पन्नगेनैव नरः पापवशम् सुग्रीवप्रियकामेन यदहम् निहतस्त्वया मामेव यदि पूर्वम् त्वमेतदर्थमचोदयः मैथिलीमहमेकान्ना तव चानीतवान् भवेः राक्षसम् च तव भार्यापहारिणम् कण्ठे वध्वा प्रदद्याम् ते निहतम् रावणम् रणे न्यस्ताम् सागरतो ये वा पातालेवापि मैथिलीम् आनयेयम् तवादेशाच्छ्वेतामश्वतरीमिव युक्तम् यत्प्राप्नुयाद्राज्यम् सुग्रीवः स्वर्गते मयि अयुक्तम् यदधर्मेण त्वयाहम् निहतो रणे काममेवंविधो लोकः का कालेन विनियुज्यते क्षमम् चेद् भवता प्राप्तमुत्तरम् साधु चिन्त्यता इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाता महात्मा समीक्ष्य रामम् रविसन्निकाशम् तूष्णीम्बभौ इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धाकाण्डे सप्तदशः